अच्युतं केशवं रामनारायणम् कृष्णदामोदरुं वासुदेवं हरं। अच्युतम् केशवम् रामनारायणम् कृष्ण दामोदरम् वासुदेवम् हरिम् श्रीधरम् माधवम् गोपिका वल्लभम् जानकीनायकम् रामरम् ब्रह्मजे अच्युतम् केशवम् सत्यभा माधवम् माधवम् श्रीरम् राधिकाराधिकम् इन्दिरामन्दिरम् चेतसा देवकीनन्दनम् विष्णवे जिष्णवे शंखिने चक्रिने रुक्मिणी रागिणे जानकी जानये वल्लवी यात्मने कंसवे ध्वंसिने वंशिने नमः कृष्ण गोविन्द हे रामनारायण श्रीपदे वासुदे निध अच्युता हे माधवाधोक्षक राक्षस शोभित सीतया शो दंडकारण्यभू दंडकार्यू पुण्य कारण नान्वितो वनरे अगस्त्यसं सम्पूजितो माम् धेनुकारिष्टहानिष्टकृद्वेषिणा केशिहाकं सहृद्वंशिका वादक पूतना कोपक सूरजाखेलनो बालगो ोलवत् रोलसद् विग्रहम् बन्यया मालया शोभितोरस्थलम् लोहिताग्रद्वयम् वारिरा शम्भजे कुञ्चितैर्कुन्तलैर् भ्राजमानानलम् रत्नमौलिम् रस कुण्डलम् गण्डयो हारके किंकिनी मञ्जूम् श्यामम् रम्भजे भजे यः पटे द्विष्टदम् प्रेमदा प्रत्यहम् उरुष सस्पृहम् वृत्ततः सुन्दरम् देद्यवेश्वम्भरम् तस्य वश्यो हरे जायरे jo hade jayate satvadam tasya varsho hade jayate satvadam tasya varsho hade jayate satvadam tasya varsho hade jayate